भोमिर्भोम्नाद्योर्वरिणान्तरिक्षम् महित्वा उपश्चेते देव्यतिथे दे दे ग्रिमन्नादमन्नाद्यायातते दे। आयङ्गो प्रस्थिरक्रमेदशनन् मातरम् पुनः पितरम् विगुम्सदा मिराजधि वाक्वतङ्गायसि श्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरतिरोचना व्यक्यन्मघिषस्तु वः यद्वा आ सुकल्पमग्ने तत्तव पुनश्चोद्धीपयामसि यत्ते मन्यपरोक्तस्य पृथिवीमनुदत्वसे आदित्या विश्वे तद्देवावसवश्च समाभरन् मेदिनी देवी वसुन्धरात्यात्मसुदा देवी वासमे ब्रह्मवर्चस पितॄणाम् श्रोत्रम् चक्षुर्मणः देवी हिरण्यगर्भिणी देवी प्रसूदने रसने सत्यायने सीता समुद्रवती सावित्रीहन देवी मयगी महोदरणे महाव्यधिष्ठा शृङ्गे शृङ्गे यज्ञयज्ञविभीषणे भी इन्द्रपत्नी व्यापिनी सुरसरिजिहा वायुपरिजनशयने श्रियन्ताराया सत्यन्तपरिमेदिनी स्वपरिधत्तङ्गाय विष्णुपत्नीम् महीम् देवीम् माधवीम् माधवप्रिया लक्ष्मीम् प्रियसखीम् देवीम् नमाम् यच्युतवल्लभा ॐ धनुर्तरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि कर्णादरा प्रचोदयात् शृण्वन्ति श्रोणामृतस्य गोपा पुण्यामस्यामुपशृणोमि वाचम् मगे देवेम् विष्णुपत्नीमचोर्या रती मे नागम् अविषायजामः त्रेधा विष्णुरुगाय विचक्रमे मगेन् दिवम् पृथिवीमन्तरिक्षम् तत् श्रोणयिति शवयिचमाना पुण्यग्रोकयजमानाय कृण्वती गृणाहि धृतवती सवितराधिपत्यै पयस्पतिरन्धिरासानस्तु नुवा दिशाम् विष्णुपत्यहो रात्रे सा नासवसो य गृणन्तु म्ब दिव दरुणपृथिव्या अस्येताना जगतो विष्णुपत्नी सप्रदसभा मे गोपाय यजसभ्या आसपासदः तानिन्द्रियावतः कुरु सर्वमायुरुपासदा अहेबुल् नियमन्त्रम् मे गोपाया यमृषयश्चैरिता विदुः ऋतः सा मानि यजोगुंषि सदा सन्ना मित्रः संवरुणः सन्ना भवद्वर्यमा सन्न इन्द्रो सन्ना विष्णुरुक्रमः नमः ब्रह्मणे नमस्तेवाय वा त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि रुदम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवत् तद्भक्तारमवत् अवगमा अवदु, अवतु वक्तारम् ओ शान्तिः सन्न मित्रः संवरुणः सन्ना भवत्पर्यमा सन्न इन्द्र बृहस्पतिः सन् न विष्णुरुक्रमः नमस्ते वाय त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्माबादिषम् हृतमबादिषम् सत्यमबादिषम् तन्मावीर् मा तद्भक्तार मावीर् आवेन्मा वे द्वक्तारम् ॐ शान्तिः सहना भवतु सहनौ पुनत् सह वीर्यम् परवावहै तेजस्मिनावधितमस्तु मा विर्मिषावहै शान्ति शान्तिः वाचे या चोदिता या च नुदिता वाचे नमो नमो वाचे नम वाचस्पतये नम ऋषिभ्य मन्त्रकृभ्य मन्त्रपतिभ्य मामामृषय मन्त्रकृत मन्त्रपतयः परा दुर्मा मृषे मन्त्रकृत मन्त्रपतीन् परादाम्बै स्वदेवीम् म्वाचमुद्यासगुम् शिवामसाञ्जुष्टान् दवेभ्यः धर्म मेद्यो शर्म पृथिवी धर्म विश्वमिदम् जगत् भूतम् वदिष्ये भुवनम् वदिष्येतेजो वदिष्येयशो वदिष्येतपो वदिष्ये ब्रह्म वदिष्ये सत्यम् वदिष्येतस्मा अहमिदमुपस्तरणमुपस्तृणमुपस्तरणम् मे प्रजायै पशूनाम् भूयादुपस्तरणमहम् प्रजायै पशूनाम् भूयासम् प्राणापानो मृत्यु कर्मा पातम् प्राणापानौ मामासीष्टम् मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीर्देवेर्भ्यो वाच मुद्यासगुं शुश्रूषेण्याम् मनुष्येत्यस्तम् मा देवा अवन्तु शोभायै पितरो शान्तिः शान्तिः शान्तिः तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः वोर्पञ्जि गातु भेषजम् सन्ना अस्तु द्विपदे सन् चतुष्पदे ॐ शान्तिश्चान्तिश्शान्तिः सन्न बाधः पवताम् मातरिष्मा सन्नस्तपतु सूर्यः अहनि सम्भवन्तु नः सगम् रात्रिः प्रति समुडाणा व्यचुसमाधित्यमुदेतु नः शिवा इडायैवास्व शिवा श्रुमद्वास्तुमन्त प्रधिष्ठानिर्प्रधिष्ठावन्तो भूयास्म मा प्रतिष्ठायान्ति स्मह्य प्रधिष्ठस्व भूयाद्य अस्मान्वेषि यम् च भजन्तु स्म आवादवाहि भेषजम् विवादवाहि यद्रवः स्वगुम्मि विश्वभेषजो देवानाम् दूतयीयसे ौ वादौ वाद आसिन्धोरापरापदः दक्षम् मे अन्य आवादु परान्य वातु यद्रवः य तद् गृहे मृतस्य निर्हितः ततो न देहि जीवसे ततो न देहि वेषजम् ततो न मह आवहवात आवादु आवा भेषजम् शम्भोर्मयोगोर्नावृते प्रण आयोगम् शितारिषत् इन्द्रस्य गृहोषितन्वा प्रपद्ये सहसात्वः सहयन्मे अस्ति तेन ॐ प्रपद्ये भुवः प्रपद्ये सुभः प्रपद्ये भूर्भुवः सुभः प्रपद्ये वायुम् प्रपद्येनार्तान् देवताम् प्रपद्ये स्मानमागणम् प्रपद्ये प्रजापतेर्ब्रह्म घोषम् ब्रह्म प्रपद्य म् प्रपद्ये अन्तरिक्षम् अपुर्वन्तरम् मृगदग्नय पर्वताशया स्वस्यास्वस्ति मान्तया स्वस्ति स्वस्ति मानधानि प्राणापानौ मृत्योर्मा पातम् प्राणापानौ मां मयि मेतां मयि प्रजां मय्यग्निस्तेजो ददातु मयि मेधां मयि प्रजामयिन्द्रयिन्द्रियम् ददातु मयि मेधामयि प्रजामयि सौर्य प्रजोददातु दिविरग् परिपातमस्मानरिष्टेभि रश्मिनासौ भगेभिः तन्नामित्रावरुणो मामहन्तामतिथिर्सिन्द्रपृथिवे मुदद्यो कया नर्चित्र अवदते सदा वृतः सखा कया स चिष्टया कस्त्वा सत्यो मदानाम् मगम्यष्टो मत्सदम् ददा दृढाजिदारुजेवसु अपेषु नर्सकी नाम विताजरिदृणा सदम्भवा स्योतिभिः वय तु वर्णावुपसे दुरिन्द्रम् प्रियमे दारिषयो नादमानाः अपर्भामृगि मूर्तिचकुर्ममुद्यस्मान्नितयेव भा सन्ना देवे रविष्टय आपभवन्तु भीतये स योरभिस्रवन्तु नः ईशाना वार्याणाश्रयन्ते सर्षणेना अपो भेषज सुमित्रा न आपभोषधयल् सन्तु दुर्मित्रास्तस्मै भूया दुर्यमान् वेष्टियम् च भजन् विष्मः आपोहिष्ठामयो भुवस्तान भोर्जे ददादन महेरणाय चक्षसे यो वः वसतीरिव मातरः तस्मा अरङ्गमामभो यस्य क्षयायजिन्वथ आपो जनयता जनः पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता सु अन्तरिक्षगम् शान्तम् तद्वायुना शान्तम् तन्मे शान्तकम् शुचकम् शमयतु यो शान्ता सा न शान्ता सा मे शान्ता पृथिवी शान्तिरन्तरिक्षगुं शान्तिो शिर्दिशान्तिरवान्तरधिशान्तिरग्निश्चन्तिर्वायुशान्तिरादित्य शान्तिश्चन्द्रमाशन्तिर्नक्षत्राणि शान्तिरापश्चान्तिरोषधयश्चन्तिर्वनस्पतयश्चन्ति दीर्घो शान्ति रजा सा शान्तिरश्वशान्ति पुरुषः शान्तिर्ब्रह्म शान्तिर्ब्राह्मणशिरेव शान्ति शान्तिर्मे अस्तु शान्तिः तया हघुम् शान्त्या सर्पशान्त्या मह्यन् द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः हस्त्रे चह्रे चतुर्तिश्च तव मेधा प्रतिष्ठा श्रद्धा सत्यम् धर्मश्चैतानि मतिष्ठन्तमनस्तिष्ठन्तु माम गृहे च ह्रे चतुर्तिश्च तव मेधा श्रद्धा सत्यम् धर्मश्चैतानि माहाशिषुः युषा स्वायुषो दोष दीनागुम् रसेन पर्जन्यस्य सुष्मेणो दस्तमृता गुम् अन तच्चक्षुर्देवहितम् पुरस्ता Vashyema saradas, shatan jiveema ja saradas, shatan nanda masaradas, shatan moda masaradas, shatan bhava masaradas, shatakumsrnava masaradas, shatan bhaprabha masaradas, shatam ajitha masaradas, shatan jokcha suryantriset. यौतकान्महतोर्न वा विप्राजबालः सरिलस्य मध्या ब्रह्मणश्चोदन्यसि ब्रह्मण आलीस्त्व ब्रह्मण आपमति दारितेयम् पृथिवे ब्रह्मणा मयि दारितमेन महदन्तरिक्षन्ति मन्तादारपृथिवेगुम् सदेवाल्यदहम् वेद तदहम् दारयाणि दा दा मामद्वेदोऽधिजत् मेतामनीषेमाविशतागुम् समीचीभूतस्य भव्यस्यावरुध्यै सर्वमायुधयाणि सर्वमायुरयाणि आविर्घेर्भिर्यततो न भो नमाभ्यायय हरिवो वर्धमानः यदा गातृभ्य मयि गात्रा रुजाति भूयिष्टवाजपददेश्याम ब्रह्म प्रवादिष्मदन्नमाहाचीत् व <Lake honeymoon> न् प्रजा वा आम्वधुमान् भवति चन्द्रमा वा अपाम् पुष्पम् पुष्पवान् प्रजा वा आन्वधुमान् भवति य एवम् वेद यो पामायतनम् वेद आयतनवान्भवति अग्निर्वा अपामायतनम् आयतनवान् भवति यो अग्नेरायतनम् वेद आयतनवान्भवति आपो अग्ने वा अग्नेरायतनम् आयतनवान्भवति य एवम् वेद यो पामायतनम् वेद आयतनवान्भवते वायोर्वा अपामायतनम् आयतनवान्भवति यो वायोरायतनम् वेद आयतनवान्भवते आपो वैवायोरायतनम् आयतनवान् भवति य एवम् वेद यो पामायतनम् वेद आयतनवान्भवति असौ वैरवन्न पामायतनम् आयतनवान्भवति योऽमुष्यतपत आयतनम् वेद आयतनवान् भवति आपो वा अमुष्यतपत आयतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान् भवति चन्द्रमावा अपामायतनम् आयतनवान्भवति यश्चन्द्रमस आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवम् वेद यो पामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान्भवति यो नक्षत्राणामायतनम् वेद आयतनवान्भवति आपो वै नक्षत्राणामायतनम् आयतनवान्भवति य एवम् वेद यो पामायतनम् वेद आयतनवान्भवति अर्जन्यो वा अपामायतनम् आयतनवान्भवति यः पर्जन्यस्यायतनम् वेद आयतनवान्भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवम् वेद योऽपमायतनम् वेद आयतनवान् भवति संवत्सरो वा अपामायतनाम् आयतनवान्भवति यः संवत्सरस्यायतनम् वेद आयतनवान्भवति आपो वै संवत्सरस्यायतनाम् आयतनवान्भवति य एवम् वेद यो ओप्सुनाभम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति